ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे दशमोऽध्यायः व्यास उवाच बभूवा चक्रवर्ती स नृपतिः मां धाता पृथिवीं सर्वम् अजयन्द्रपतिसुरः दस्य वस्य भयस्र ययुर्गिरि गुहासु च इन्द्रेणास्य कृतं नाम रसदृत्योरिति स्फुटं स्फुटम् तस्य बिन्दुमति भार्या श बिन्दौ भवते भवत पतिव्रता सुरूपात् सर्वलक्षणसंयुताय तस्यामुत्पादयामासे मान्धाता द्वौ सुपुरकुत्सम् सुविख्यातम् मुचुकुन्दं तथा परं पुरकुत्सात् ततोरण्यः पुत्र परमधार्मिकः पितृभक्तिरथाभूत् बृहद्ष्वस्तदात्मजहै हर्येश्वस्तस्य पुत्रोऽभूत् तस्यात्मज धाक पीधन भूत अरुण तस्तम अरुण से सुध श्रीम सत्य ब्रत स्वभूतछा चा मंदत्मा यतिप है सपापात्म प्रभार्यम होता मोहि विवाहे तस्य विघ्नं च सच्चकारे नृपते सुतः मिलिता ब्रह्मणा स राजानम् अरुणं नृपे ऊचुर्भुशं तु दुःखा हा हतास्मेति चास्य कृते सप्रच्छ राजा तान् विप्रान् दुःखितान् पुरवासिनः किं कर् मम पुत्रेण भवताम् अशुभं द्विया तन्निशम्य द्विया वाक्यं राज्ञो विनयपूर्वकं तदोच तू ऋणम् विप्रा कुताशीर्वचनाभृषम् ब्राह्मण औचो राजन्तव सुतेनाद्य विवाहे प्रवाहिता विप्रकन्या बलेन्द्र बलिनां वर च शुवा तेज बच सच राजुष्ट कर्मण गूरम सुन दुराचारमस्था तया पाप विषय कुपितं सर्वथ कु गच्छामीति वैमुः अरुणस्तमधोवाच स्वपाकैः स वय कपच कृतं कर्म विरापहरणं तस्मात् तै संसर्गं कृत्वा तिष्ठ सुखं। सुखम् नाहं पुत्रेण पुत्रासि त्वया च कुलपंसन् यथेष्टं मृदुष्टातम् कीर्ति नाशकुत त्वया स निशम्य पि सौर्वाक्यम् कुपितस्य महात्मनः निश्चक्रामपुरा तस्मात् तरसान्ययो सत्यव्रतदा तत्र शपाकैः स वर्तते धनुर्बाण श्रीमान् कवची कुणल यदा निष्का पिता कुन महात्मन गुरुनाथ वसिष्ठन प्रेरित सो महीपति तस् बभूव क्रोध संयुत है, वसिष्ठे धर्म शास्त्र पर मुखे कहनाचि कर पिता तस्य महीपतिः पुत्राथेतोपः सप्तम् परं त्यक्त्वा वनं गतः न भव चेत् तदा तस्मिन् विषये पाकशासनः समाद्वादश राजेन्द्र तेन धर्मेण सर्वथाय विश्वामित्रो विषये नृप सन्यस कौशिके तीरे चार विपुलं तपः अपरा तत्र सञ्जाता भार्या वै कौशिकस्य कुटुम्बभरणाथाय दुःखितावर्णिनी बालकान् शुधया क्रान्तां रुदतः पश्यति भृशं याचमाना चलेवारम् कष्टं वापतिव्रताय चिन्तयामास दुःखाताय शोकान् वीक्ष्य क्षुधा सुरन् नृपो नास्ति पुरो यद्य कम्याचेवा करोमि किम् न मेत्रा सास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ रुदन्ती बालका कामं धिङ्गे जीवनमद्य ीनां च मां त्यक्त्वा तपसप्तुं गतः पतिः न जानापि समर्थोऽपि दुःखितां धनवर्जिताम् बालानां भरणं केन करोमि पतिना विना मरिष्यन्ति सुताः सर्वे हृदयः पीडिता भृशम् एकं सुतं सुविक्रीय द्रव्येण कियता पुनः पालयामि सुतान्यान् एष मे वितो विधिः सर्वेषां मरणम् नाधा युक्तम् मामपि पर्यये कालश्च कलनायाहम् विक्रेणामि तथात्मजम् हृदयम् कठिनम् कृत्वा सञ्चिन्त्य मनसा सती सा दर्भरज्वा गले पुत्रं विनिर्गताय मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमवरसं शेषच्च भरणाय गृहीत्वा चलिताय गृहाय दृष्ट्वा सत्यवते नासाय तापसि शोकसंयुताय स्वप्रच्छन्द्र तु किं चिकेशिशोभने रुदंत बालकं कंठे बिखाधुन किल सर्वांगी सत्य ब्रूहि माग्रता ऋषिपत्नी उच विश्वामी भारे पुत्रे निक्रेतम कामं, विषमे सुत अन्न ना पथिर्मुक्त गत सप्तम्पक्वचेत् विक्रीणामिक्षुधा तैनम् शेषश्च भरणाय वै राजोवाच पतिव्रते रक्षपोत्रं दास्यामि भरणं तव तावदेव पति तेत्र वना चैव गमिष्यसि दृक्षे तवाश्रम्भाभ्यासे भक्ष्यं किञ्चिन् बन्धयित्वा गमिष्यामि सत्यं भेत द्रविम्यहम् इत्युक्ता सा तु तेन राज्ञ कौशिककामिनी निबन्धं तनजं कृत्वा जगामाश्रममण्डलम् स्वभवेद् गालभो नाम गलबन्धन् महात्पः स सात्य। भक्तियापया चीप्रत विश्वामित्र से मुन कलत्र तदर वन स्थितिता नृगा वराह मई तथा विश्वामे मास वृक्षे बबंध है ऋषिपत् गृह मास पुत्र न निर्वृत्तिम् वर्माम् प्राप प्राप्य भक्ष्यमनुत्तमम् अयोध्याम् चैव राज्यम् च तथैव तत्परम् मुनिः गते तप्तुम् नृपे तस्मिन् वसिष्ठ पर्यरक्षत सत्यवतोपी धर्मात्मा यतिष्ठन् नगराद् बहिः पितुराज्ञाम् समासाय पशुघ्न वते वने सत्याव्रतो यकस्माच्च कस्यचित् कारणः वसिष्ठे चाधिकं मन्युम् धारयामास नित्यमानं वने पित्रा धर्मिष्ठं च प्रियं श्रुतं न वारयामास मुनि वसिष्ठणेन पाणिग्रहेण मन्त्राणां निष्ठा स्यात् सप्तमे पदे जानन्नपि स धर्मात्मा विप्रधारपरिग्रहे कस्मिंश्चिद्दिवसे अरण्ये मृगाभावे महीपतिः वसिष्ठस्य च गान्धोध्रिम् अपश्च क्रोधान्वहाश्च दस्युवत् वृक्षे भवन्धन्मासं नीत्वा स्वयमभक्षयत त्यजमानं वनेपिता धर्मिष्ठं च प्रियम् सुतम् न वारयामास मने वसिष्ठकारणेन पाणिग्रहेण मन्त्राणाम् निष्ठा स्यात् सप्तमे पदे जानन्नपि च धर्मास्मा विप्रधारपरिग्रहे कस्मिंश्चित् दिवसेऽरण्ये मृगाभावे महीपतिः वसिष्ठस्य सघां दौग्ध्रिम् अपश्यगां तं चघा न क्षुधा तस्तु क्रोधान्मोहाश्च दस्युवत् वृक्षे भवन्त तन्मासं नीत्वा स्वयमभक्षयत ऋषिपत्नी सुतान् सर्वान् भोजय मास तत्तर शङ्कमाणा मृग न गोरि च सुव्रत वसिष्ठस्तु हतान्दोग्रीं ज्ञात्वा क्रुद्धोत्तमब्रवीत् दुरात्तं किं कृतं पापं धेनुघातात् पिशाचवत् एवं ते शङ्कभक्रोरः पतन्तु त्वरितात्रयः गोवधात् तथा वृशम् इति नाम्ना वै भुविख्यातो भविष्यति पिशाचरूपमात्मानं दर्शयन् सर्वदेवशे तेन सदा सत्यवृतो नृपः चकारीव्रं तस्मिन् देवाश्रमे स्थितः कस्माच्चिन्मनिपुत्रा तु प्राप्य मन्त्रमनोत्तमम् ध्यायन् भगवतीं देवीं प्रकृतिं परमां शिवम् इति श्रीमद्देवी भगवते मा पुराणे चादृश्यां संहितायां सप्तमस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु